अथ तैत्तिरीयोपनिषद्भागे द्वितीयः प्रश्नः प्रारम्भः ओ सहनाभवतु सहनोपनुक्तो सह वीर्यम् करवावहै तेजस्विनामधीतमस्त्वमाविद्विषावहैः ओम् शान्ति द्विश्याम् तिश्यान्तिः ब्रह्मविदा आप्नोतिपरम् स देशाभ्युक्ता सत्यम् ज्ञानमनन्दम् ब्रह्म यो वेदनिः रङ्गुहायाम् परमेऽव्यामन् सोऽष्णुते सर्वान् कामान् सहा ब्रह्मणा विपश्यदेति तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायोः वायोरग्निः अग्ने रामः अध्यः पृथिवी पृथिव्या ओषधयः ओषधीभ्यान्नम् तस्येदमेव अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्माः इदम् भक्षम् प्रधिष्ठा तदप्यश्लोक भवति अन्मात्रे प्रजाः प्रजायन्ते याः काश्च पृथिवीकृश्रिताः अथ अन्येनैव जीवन्ति अथेन दपियन्त्यन्ततः तस्मात् सर्वौषधमुच्यते सर्वम् वेतेन्नमाप्नुवन्ति येऽन्नम् ब्रह्मभासते अन्नम्यभूतानाम् ज्येष्ठम् अस्मात् सर्वौषधमुच्यते अन्ना आद्भूता न जायन्ते जातान्येन वर्धन्ते अद्य त्रिजभूतानि अस्मादन्नम् तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयात् अन्योन्तर आत्मा आप्राणमयः तेनैष पूर्णः स वा तस्य पुरुषविधताम् अन्वयम् पुरुषविध तस्य प्राण एव शिरः जानो दक्षिणः पक्षः अपानवोत्तरः पक्षः आकाश आत्मा पृथिवीमुच्छम् प्रतिष्ठा तदप्येषु प्राणन्ति मनुष्याः पृशवस्थिते प्राणो हि भूता नामायुः तस्मा सर्वायुषमुच्यते सर्वमेव स आयुर्यन्ति हे प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात् प्राढमयात् अन्य आत्मा महोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य हितुरेव शिरः प्रत्यक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वाङ्गिरकः पुच्छम् प्रतिष्ठा सत्येष श्लोका भवति यतो वाचो निवर्तन्ते अप्राद्यमनसा आनन्दम् ब्रह्मणो विद्वान् अभिभेति कदाचनेति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्मात् वा एतस्मान्मनोमयात् अन्योन्तर आत्मा विद्यान्वयः तेनैष पूर्णः तवा पुरुषविध एव तस्य पुरुषविधताम् पुरुषविधः तम् दक्षिणपक्षः तस्य उत्तरपक्षः योग आत्मा महत्पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञन्तनते ब्रह्माणि तनतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानम् ब्रह्मजे द्वेद तस्माच्छेन्न प्रमाद्यति शरीरेवात्मनो हित्वा सर्वान् कामान् समश्रित इति तस्मैष एव शारीर तस्माद्वा एतस्माद्विज्ञानमयात् अन्योन्द्र आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोदोत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् भवति असन्नेव स ेद चेत् अस्ति ब्रह्मेति चेद्वेद सम्प्रमेन तदो वितरति यः कोर्वश्या प्रश्नाः तथा विद्वारभम् आहो विद्वारभम् लोकम् प्रेत्य कश्चित्समश्नुता सोकामयता बहु स्याम् प्रिया ये येति तदपोदप्यता भवद, तदपस्तत्त्वा इदो सर्वमसृजत यदि रङ्गिम् च तत्सृष्ट्वा तदेवानप्राविशत् तदनप्रविश्य तच्छत्यक्षाभवत् निरुक्तम् च निरुक्तम् चलयनम् च विज्ञानम् च सत्यमभवत् यदित्यादृक्षते तदप्येषयमधृता तस्मात् तत्सु कृतमुच्यते यत् वैतत्सकृतम् रसोषः न स्यात् एषाति यदा एतस्मिन्नदृश्येनात्म्येन भयम् प्रतिष्ठाम् विन्दते असगो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नमन्तरम् कुरुते न्दानस्येन्द्रश्च मृत्युध्यापति पञ्चम इति भीषानन्दस्य मीमावंसः भवति उपाध्यायकः आदिष्ठो दृढिष्ठोरिष्ठः तस्येयम् पृथिवी सर्वावित्तस्य ते येषु मानुषा आनन्दाः श्रेको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य जाकामः तस्या स्ेये शुरं मनुष्यगन्धर्वाणामानन्दाः श्रेको देवगन्धर्वाणामानन्दः श्रोत्रियस्य जाकामः तस्या श्रेयेशरं देवगन्धर्वाणामानन्दाः तेकपितृणाञ्जलोकलोकानामानन्दः श्रोत्रियस्य चाकामः तस्या हेये सुरं दृढणाञ्जलोकलोकानामानन्दाः सैक आजानुजानान्देवानामानन्दः श्रोत्रिश्रजाकामः तस्या ते येषुमानजानाम् देवानामानन्दाः श्रेकः कर्मदेवानाम् देवानामानन्दः एकर्मणादेवानपियन्ति श्रोत्रिस्वजाकामः तस्या ते येश्वरम् कर्मदेवानाम् देवानामानन्दाः श्रेको देवानामानन्दः श्रोत्रियस्तुजाकामः तस्य हे येश्वरम् देवानामानन्दाः श्रेक इन्द्रस्यानन्दः श्रोत्रियस्तु जकामः तस्य हेयेषु इन्द्रस्यानन्दाः हे गो बृहस्पतेरानन्दः श्रोत्रिश्चिजाकामः तस्य हे येश्वरम् बृहस्पतेरानन्दाः हे गजापतेरानन्दः श्रोत्रिस्तुराकामः तस्य हे येश्वरम् प्रजापतेरानन्दाः हे गो ब्रह्मण आनन्दः श्रोत्रिस्तु च कामः तस्यायम् एतम् प्राणमयमात्मानमसङ्क्रामति एतम् ममामयमात्मानमसङ्क्रामति एतम् विज्ञानमयमात्मानमसङ्क्रामन्ति एतमानन्दमयमात्मानमुसङ्क्रामन्ति तदप्येषप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् अपि भेदकृतश्च नेति एतगमहलासनाकरवम् किमहम् पापमकरवमिति तय एवम् विद्वानेते आत्मानभ्युः स्फुणते वे ये वैषयेते आत्मानव्यस्पृणुते एवं वेदापनिषत् सहनामभगतो सहनो भक्तोमाभिदृशामहैः श्रान्तिः इति उपनिषद्भागे द्वितीयः प्रश्नः समाप्तः